अयि दुर्विनाय अदि दुर्वियात्मगत्वया ऐ दुर्विनयात्मगत्वया ऐ किमुत्सा mm. बदवत्स भक्षिता ah. किमु मृत्सावत्सभक्षिता भक्षिता <laughs> इति मातृगिरं चिरं विभो <laughs> इति <गिरं> चिरं विभो <laughs> इति <गिरं> चिरं विभो इति चिरं विभो विदधां त्वं प्रति जञ्जिषेहसन् विदधा विदधां त्वं प्रदि जज्ञषेहसन् विदधां त्वं प्रदि जज्ञां त्वं प्रति जज्ञिषेहसन् अये ऐ दुर्विनायात्मविनयात्मका त्वया किमुत्सात्स भक्षिता भक्षिता ऐ दुर्विनायता ऐ दुर्विन अयु दुर्विनयात्मकत्वया इति मातृगिरं चिरं विभो विदधा त्वं प्रति जञ्जिषे हसन् चिरं विभो विदधा त्वम् प्रति जज्ञषेहसन् इति चिरं विभो विदधा त्वं प्रदि इति मातृगिरं चिरं विभो विदतां त्वं प्रति ऐदुर्विनयात्मकत्वया किमुत्सा वदवल्स भक्षिदा इति चिरं विभो विददा त्वम् प्रतिव्यञ्जिषेहसन् चिरं विभो ऐदुर्विनयात्मकद्वया किमृत्स बद वत्सभक्तिद इति मातृगिरं चिरं विभो विदता त्वं प्रति जग् सेहसन् ऐ ुल्मिनयात्मकत्वया किमुदवल्सभिताम् इलि मातृगिरं चिरं विभो निषे हसन् अयि दे सकलैर्विनिश्चिते अयि ते सकलैर्विनिश्चिदे अयि दे सकलैर्विनिश्चिदे श्चितेश्चेद्वदनं विमदिश्चेद्वदनं विदायताम् विमतिश्चेद्वदनम् विदार्यताम् इति मातृविभक्षितो मुखम् इति मातृविभत्सितो मुखम् इति मातृविभक्षितो विकसत् पद्मनिभं व्यदारयः विकसत् पद्मनिभं व्यदारयः अयिते सकलैर्विनिश्चिते विमदिश्चेद्वदनं विदार्यताम् अयिते सकलैर्विनिश्चिते विमदिश्चेद्वदनं विदार्यताम् अयिदे सकलैर्विनिच्छिते विमतिश्चेद्वदनम् विदार्यताम् ऐते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् इति मातृविभत्सितो मुघम् विगसत्पद्मनिभं व्यदारयः इति मातृविभत्सितो मुघं विगसत्पद्मनिभं व्यदारयः इति मातृविभत्सितो मुघम् विकसत् पद्मनिभ व्यदारय इति मातृविभत्सितो मुखम् विकसत् पद्मनिभम् व्यदारयः अयते सकलैर्विनिश्चिते विभदिश्चेद्वदनम् विदाज्यताम् इति मातृविभत्सितो मुखम् विकसत्पद्मनिभम् व्यदारयः अयते सकलैर्विनिश्चिते श्चेद्वदनं विदार्यताम् इति मातृविभल्सिगसत्पद्मनिभं व्यदारयः अयिदे सकलैर् विदिमदिश्चेतोदनं विदार्य मातृविभक्तिदो मुघ विगसत् पद्मनिभ व्यदारयः ऐते सकलैर्विनिश्चिते विमतिश्चेद्वदनम् विदार्यताम् इति मातृविभक्तितो मुखम् विकसत् पद्मनिभम् व्यदारयः वन् टु त्रि इति अपि मृल्लवदर्शनोत्सुकाम् अपि मृल्लवदर्शनोत्सुकाम् अभिलव ोत्सुकाम् अपि मृल्लवदर्शनोत्सुकाम् <responsive> जन, जननीं तां बहु तर्पयन्निव <me smoking> <ziehen Rabbit> जननीं तां बहु तर्पयन्निव जननी तां बहु तर्पयन्निव जननीं तां बहु तर्पयन्निव पिडिवीं न केवलम् पृथिवीं निखिलां न केवलम् पृथिवीं निखिलां न केवलं पृथिवीं निखिलां न केवलम् पुवनान्यप्यखिलान्यदीदृशः पुवनान्यप्यखिलान्यदीदृशः पुवनान्यप्य भुवनान्यपखिलान्य भुवनान्यप्यखिल न्यदीदृशः भुवनान्यप्यकिला नदीदृशः भुवनान्यप्यदीदृशः भुवनान्यप्यकिलान्यदीदृशः अभिमृल्लवदस्वनोत्सुकां जनि जननीं ताम्बहुतर्पयन्निव अभि अभिमृल्लवदर्शनोऽसुकां जननीं तां बहु तर्पयन्निव अभिमृल्लवदर्शनोऽसुकाम् जननीं तां बहु तर्पयन्निव जननीं तां बहु पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः पृथिवीं निखिलां न केवल भुवनान्यप्रगिल प्रगिलान्यदीदृशः पृथिवीं निखिलां न केवलं भुवनान्यप्य भुवनान्यप्यखिलान्यदीदृशः अभिमृल्लवदर्शनोत्सुकाम् जननीम् ताम्बहु तर्पयन्निव पृथृवेम्निखिलां न भुवनान्यप्यखिलान्यदीदृशः अभिमल्लवदर्शनोत्सुकाम् जननीं ताम्बहु तर्पयन्निव पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः अभि चुका जननीता भवयन्निव पृथिवीं निखिला न केवला भुवनान्यपला न्यदीदृशः पि पृल्लवदर्शनोत्सुकाम् जननीम् ताम् बहु तर्पयन्निव पृथिवीम् निखिलाम् न केवलम् भुवनान्यप्यखिलान्यदीदृशः वन् टु त्री मृल्लवनोत्सुकाम् जननी खिलान्युषुद्वनमम्बुधे क्वचिद् गुहचिद्वनमम्बोधे क्वचिद् गुहजिद् गुहजिद्वनमम्बुद क्वचिद् गुहचिद्वनमम्बोधे क्वचित् क्वचिदभ्रं कुहछिद्रतलम् क्वजिदभ्रं गुहछिद्रसातलम् क्वजिद्रं कुहचिद्रसातलम् क्वचिदभ्रं कुहछिद्रसातलम् अनुजादनुजा क्वचित्सुराः मनुजादनुजा क्वचित्सुराः मनुजा धनुजा क्वचित् सुराः मनुजा धनुजा क्वचित् सुराः ददृशे किं न तदा त्वदानने दृशे किं न तदा त्वदानने सदृशे किं न तदा त्वदानने सदृशे किं न तदा त्वदानने क्वचित् सातलं कुहजिद्वन्म बुद्धि बुधे क्वजिद्रं कुचिद्र क्वचिद क्वचित् कुहचिद कुहचिद्वनमम्बुधिः क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् मनुजा दनुजा क्वचित् सुराः ददृशे किं न तदा मनुजा दनुजा क्वचित् सुराः किं न तत्तदा मनुजा अनुजा क्वचित् सुराः सदृशे किं न तदा त्वदानने मनुजा अनुजा क्वचित् सुराः सदृशे किं न तदा त्वदा त्वदानने कुहजिद्रदुहचिद्दनमम्बुदे क्वचिद् क्वचिदभ्रम् कुहचिद्दशातलम् मनुजादनुजा क्वचित् सुराः दृशे किं न तदा त्वदानने कुहचिद्वनमम्बुदि क्वचिन् क्वचिदब्धं कुहचिद्रसातलम् मनुजा दनुजा क्वचित् सुराः ददृशे किं न तदा त्वदानने कुहचित् कुहचिद्वनमम्बुदि क्वचिन् उदिदभ्रं कुहचिद्धरसातलम् अनुजादनुज क्वचित्सुराः सदृशे किं न तदा त्वदानने कुहचिद्वनमम्बुधिः क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् अनुजादनुजा क्वचित् तदायने कलशाम्बुधिशायिनम् पुनः कलशाम्बुधिशायिनम् पुनः कलशाम्बुदिशायिन पुनः कलशाम्बुदिशायिनं पुनः पर वैगुण्डपदादिवासिनम् पर वैगुण्डपदादिपदाधिवासिनम् पर वैकुण्डपदाधिवासिनम् स्वपुरश्च निजात्मकात्मकं स्वपुरश्च निजार्भकात्मघं स्वपुरश्च निजार्भकात्मकम् स्वपुरश्च निजार्भकात्मकम् कदिदा त्वां कतिधाददर्शसामुखे कलशाम्बुधिशायिनं पुनः पर वैगुण्डपदादिवासिनम् कलशाम्बुधिशायिनं पुनः पर वैगुण्डपदादिवासिनम् कलशाम्बुधिशायिनम् पुनः कलशाम्भुरिशायिनम् पुनः पर वैकुण्ठपदाधिवासिनम् स्वपुरश्च निजात्मकात्मकम् कलिधा त्वां न ददर्शसा मुखे स्वपुरश्च निजार्भकात्मकम् करिधा त्वां निजार न कदि त्वां न ददस्तदश्च सामुखे स्वपुरश्च निजार्भकात्मकम् कतिधा त्वां न ददश्च सामुखे कलशाम्बुदिशायिनम् यः पर वैगुण्डपदादिवासिनम् स्वपुरश्च निजार्भकात्मकम् कदिदा त्वां कलशाम्बुदिशायिनं पुनः पर वैगुण्डपदाधिवासिनं स्वबुरश्च निजार्भकात्मकं कदि धा त्वां न ददर्श सा मुखे अलशाम्बुदिशायिनं पुनः पर वैगुण्डपदाधिवासिनं स्वबुरश्च निजार्भकात्मकम् ओकेश कदा साम्बुदिशायिनम् okay, पुनः परवैकुण्ठपदाधिवासिनम् स्वपुरश्च निजार्भकात्मकम् कतिधास्माम् न ददर्शसामुखे वन् टु त्री कलशाम्बुदिशिनम् स्वभुरत्मकं सदा मुखे विगसद् भुवने मुखोदरे विगसद् भुवने मुखोदरे विकसद् भुवने मुमुघोदरे विकसद् भुवने मुखोदरे नुभूयोऽपि तथा विधाननः ननुभूयोऽपि तथा विधाननः ननुभूयोऽपि तदा विधाननः ननुभूयोऽपि तथा विधाननः अनया स्पुरमीक्षितो भवान् अनया स्पुरमीक्षितो भवान् अनया स्फुटमीक्षितो भवान् अनवस्तां जगदाम्बदातनोद् अनवस्तां जगदाम्बदातनोत् अनवस्तां जगदाम्बदनोद् अनवत्थां जगदाम्बतानोत् विगसद्भुवने मुखोदरे नु भूयोऽपि तदा विधाननः विगसद्भुवने मुखोदरे ननु भूयोऽपि तथा विधाननः विगसद्भुवने मुगो मुगोदरे ननु भूयोऽपि तदा विधाननः विकसद् भुवने मुखोदरे ननु अनया स्फुटमीक्षितो भवान् अनभस्तां जगदाम् ददा तनोद अनया स्फुटमीक्षितो भवान् अनभस्तां जगदाम् ददा तनोद अनया स्फुटमीक्षितो भवान् अनवस्तां जगदां ददनोद् अनया स्फुटमीक्षितो भवान् अनवस्थां जगदाम्बदा तनोत् विगसद्भुवने मुखोदरे ननुभूयोऽपि तदा विधान्यः अनया स्फुडमीक्षितो भवान् अनवस्थां जगदाम्बदातनोद् विगसद्भुवने मुखोदरे ननुभूयोऽपि तदा विधाननः अनया स्पुरमीक्षितो भवान् अनवस्तां जगदाम्बता तनोन् विगसद् भुवने मुगोदरे ननु भूयो विददा विधाननग अनया पुरमीक्षितो भवान् अनवस्तां जगदाम्बदनोदे विकसद् भुवने मुखोदरे ननुभूयोऽपि तथा विधाननः अनया स्पुटमीक्षितो भवान् अनवस्थाम् जगताम् पतातनोत् वन् टु त्रिगसुभमये त्वदीयं तदाक्षणं धृदतत्त्वधियं धृदतत्वधियं तदाक्षणम् धृतत्वधियं तदाक्षणम् धृतत्त्वधियं सदा क्षणम् जननीं तां प्रणयेन मोहयन् जननीं तां प्रणयेन मोहयन् जननीं ता प्रणयेन मोहयन् जननीं तां प्रणयेन मोहयन् स्तनमम्बदिशेत्युभासजन् स्तनमम् वदिशेत्युभासजन् म्बदिशेत्युपासजन् तनमम्ब दिशेत्युपासजन् भगवन् अद्भुत बाल पाहि माम् भगवन् अद्भुत बाल पाहि माम् भगवन् अद्भुत बाल पाहि ृदतत्त्वधियं तदा जननीं तां प्रणयेन मोहयन् धृदतत्त्वधियं तदाचनम् जननीं ताम्रणयेन मोहयन् धृज तत्त्वधियं तदाचनम् जननीं ता प्रणयेन मोहयन् धृतत्त्वधियम् तदाक्षणम् जननीं ताम् प्रणयेन मोहयन् स्तनमम्बदिषेत्युवासजन् भगवन्नद्भुतबालपाकिमाम् स्तनमम्बदिषेत्युपासजन् भगवन्नद्भुतबाल पाकिमाम् स्तनमम्बदिचेत्युपासजन् भगवन्नद्भुतबालपाहि माम् तनमम्ब दिशेत्युपासजन् भगवन् अद्भुतबाल पाहि माम् धृतसप्तदियं तदा क्षणम् जननी तां प्रयेन मोहयन् सनमम्बदिशेत्युपासजन् भगवन् अद्भुतबाल पाहि ृदतत्त्वधियं सदा क्षणम् जननी ताम्बनयेन मोहयन् स्तनमम्बदिशेत्युपासजन् भगवन् अद्भुतबाल पाहि माम् <laughs> धज तत्त्वधियं तदा क्षणम् जननीता प्रणयेन मोहयन् स्तनमम्बदिशे त्युपासजन् भगवन्नद्भुत हिमा धृतत्त्वदियम् तदा क्षणम् जननीम् ताम् प्रणयेन मोहयन् 1, 2, 3 अद्भुतबालपाहि माम् वन् टु त्रि धृतम् ो ओरोकमारम् विनयात्मगत् किमुदं भक्षिता मातृगिरं चिरं विभो विदधां त्वं प्रदिषे हसन् ऐदु विनयात्मकर्तय इति मातृगिरं चिरं विभो विदधा त्वं अयि दुद्विनयात्मकत्वया किमुत्सावत्सभक्षिता इति मातृगिरम् चिरम् विभो वितताम् त्वम् प्रति जग्दिषे हसन् अयि ते सकलय विनिक्षिते विमदिच्छेद्वदनं विदार्यताम् यदि मात्र विभर्षितो मुखम् विगसत्पत्मनिभं व्यदारयः अयुजे सकलैर्विनिश्चिते विमदिच्छेद्वदनं विदार्यमादविभक्तितो मुघ विगसत् पत्मनिभ व्यदारयः अयिते सकलैर्विनिश्चिते विमतिश्चेद्वदनम् विदार्यताम् इति मातृविभत्सितो मुखम् विकसत् पद्मनिभम् व्यदारयः अविमृलवदर्शनोऽजुकाम् जननीम् साम् ब्यहुतर्पयन्निव पृथिवीम् निखिलाम् न केवलम् भुवनान्यप्यखिलान्यदीदृशः अभि अविमृलवदर्शनोऽजुका जननीं ताम् बहुधा तर्पयन्निव पृथिवी निखिलां न केवल भुवनान्यपगे प्रखिलान्यदीदृशः अपि मृल्लवदर्शनोत्सुकाम् जननीं ताम् बहु तर्पयन्निव पृथिवीं निखिलां न केवलम् भुवनान्यप्यखिलान्यदीदृशः कुहचिद्वनमम्बुधि क्वजिन् क्वजिदभ्रं कुहचिद्रसातलम् मनुजा धनुजा क्वचित् किं न तदा त्वदानने कुवज कुवजिद्वनम्बुधि क्वजि क्वजिदभ्रं कुवचिद्रसादरा मनुजा धनुजा क्वचित् ददृशे किं न क्व क्वचिदभ्रम् मनुजा दनुजा क्वचित् सुराः ददृशे कलशाम्बुदिशायिनम् पुनः पुरवैगुण्डपधादिवासिनां वासिनं स्वपुरश्चार्भकात्मकं करिधा त्वां न मद्दर्शसाम् मुखे कलचाम्बुरिचायिनं पुनः पद वैगुण्डपदादि वासिना कलशाम्बुदिशायिनम् पुनः परवैकुण्ठपदाधिवासिनम् स्वपुरश्च निजार्बकात्मकम् कतिधात्वा न ददर्शसामुखे विगसद्भुवने मुहोदरे ननुभूयोऽपि तथा विधाननः जगदाम् जगदा बदा तनोद भुवने मुगोदरे ननु भूयो विधाननग भवान् अनवस्थां जगद बनोदे विकसद् भुवने मुखोदरे ननु भूयोपितदा अनया स्पुटमीक्षितो भवान् अनवत्तां जगताम् बतातनोत् जननीं ताम् प्रणयेन मोहयन् स्तनमम्बदिषेत्युवासजन् भगवन्नद्भुतबाल पाहि माम् तत्त्वधियं जननीं तां प्रणयेन मोहयन् तनमम्बदिशेत्युपासजन् भगवन् अद्भुत बालपाहिमा धृतदीयम् तदाक्षणम् जननीम् ताम् प्रणयेन मोहयन् भगवन् अद्भुत सर्वत्र गोविन्दनामसङ्कीर्तनवित्तरम् गोविन्दा गोवङ्गा नहीकर्द आपर्कोर्ण नहींच पूरमा, नहींच समय क्यो्ण, रच्चु पुरता कोर्या नहींच उरे, डिल या करे आ,सल्म नेल ची recognize whether this पुर्यण 그럼 क्रे यू के यू लीग Chinese or noya major, से भीures Rossau 결과